विभक्तवत्स्थिताय नमः ॐ भूतभर्त्रे नमः ॐ घ्रसिष्णवे नमः ॐ प्रभविष्णवे नमः ॐ ज्योतिषाञ्ज्योतिषे नमः ॐ तमःपराय नमः ॐ ज्ञानाय नमः ॐ ज्ञेयाय नमः ॐ ज्ञानगम्याय नमः ॐ सर्वहृदयस्थिताय नमः ॐ प्रकृतिपुरुषविवेचकाय नमः ॐ उपद्रष्टे नमः ॐ हनुमन्त्रे नमः ॐ भर्त्रे नमः ॐ भोक्त्रे नमः ॐ महेश्वराय नमः ॐ परमात्मने नमः ॐ परपुरुषाय नमः ॐ ध्यानाद्युपायविदिताय नमः ॐ सर्वभूतसमाय नमः ॐ परमेश्वराय नमः ॐ अविनाशिने नमः ॐ प्रकृतिकर्तृत्वविदे नमः ॐ अकर्त्रात्मदर्शिने नमः ॐ भूताधाराय नमः ॐ भूतविस्तारिणे नमः ॐ शरीरस्थाय नमः ओम् अकर्त्रे नमः ओम् अलिप्ताय नमः ॐ सर्वगताकाशसूक्ष्माय नमः ॐ कृत्स्नक्षेत्रप्रकाशकाय नमः ॐ ज्ञानचक्षुषे नमः ॐ उत्तमज्ञानगुरवे नमः ॐ ज्ञानप्राप्यसाधर्म्याय नमः ॐ ब्रह्मयोनये नमः ॐ सर्वभूतसम्भवाय नमः ॐ रजोगुणनिबद्धाय नमः ॐ सर्वमोहनतमःकार्यरहिताय नमः ॐ सत्त्वाभिभूततमोरजसय नमः ॐ रजस्तमोनविभूतस्सत्त्वाय नमः ॐ विवृद्धसत्त्वप्रकृतये नमः ॐ रजोजातस्मृहादिहीनाय नमः ॐ तमोमूलमोहीनाय नमः ॐ प्रवृद्धसत्त्वादिप्रलयगातिविदे नमः ॐ सात्विकादिकर्मफलवदे नमः ॐ गुणत्रयकार्यविवेचकाय नमः ॐ सत्त्वस्थादिस्थितिविदे नमः ॐ गुणातीतात्मज्ञानगम्याय नमः ॐ सर्वमूर्तिबीजप्रदाय नमः म् बन्धहेतुगुणत्रयविदे नमः ॐ निर्मलसत्त्वप्रदानाय नमः ओम् सुखसङ्गहीनाय नमः ओम् गुणातीतलिङ्गज्ञाय नमः ओम् गुणातीताय नमः ॐ प्रवृत्तप्रकाशादिद्वेषरहिताय नमः ॐ निवृत्तप्रकाशादिकाङ्क्षाहीनाय नमः ओम् उदासीनवदासीनाय नमः ॐ गुणाविचाल्याय नमः ॐ स्वस्थाय नमः ॐ समलोष्टाश्मकाञ्चनाय नमः ॐ तुल्यप्रियाप्रियाय नमः ॐ तुल्यनिन्दात्मसंस्तुतये नमः ॐ मानापमानतुल्याय नमः ॐ तुल्यमित्रारिपक्षाय नमः ॐ सर्वारम्भपरित्यागिने नमः ॐ ब्रह्मप्रतिष्ठाय नमः ओम् अमृतप्रतिष्ठाय नमः ॐ शाश्वतधर्मप्रतिष्ठाय नमः ॐ अश्वत्थमूलाय नमः ॐ अश्वत्थरूपविदे नमः ॐ अश्वत्थच्छेदस्त्रविदे नमः ॐ मार्गतव्यपदाय नमः ॐ पुराणप्रवृत्तिप्रसारकाय नमः ॐ प्रपत्तव्यपुरुषाय नमः ॐ निर्माणमोहाय नमः ॐ जतसङ्गदोषाय नमः ॐ अध्यात्मनित्याय नमः ॐ विनिवृत्तकामाय नमः ॐ प्राणिदेहाश्रितवैश्वानराय नमः ॐ चतुर्विधान्नपाचकाय नमः म् सर्वहृत्सन्निविष्टाय नमः ॐ स्मृत्यादिविदायनय नमः ॐ द्वन्द्वमुक्ताय नमः ओम् अव्ययपदाय नमः ॐ सूर्याद्यभाष्यर्पहारूपाय नमः ॐ अंशभूतजीवाय नमः ॐ जीवविषयसेवाविवेचकाय नमः ॐ ज्ञानचक्षुर्वेद्यतत्त्वभूताय नमः ओम् अकृतात्मागम्याय नमः ॐ आदित्यादितेजसे नमः ॐ गामाविष्टाय नमः ॐ भूतधात्रे नमः ॐषधिपोषकाय नमः ॐ सोमाय नमः ॐ सर्ववेदवेद्याय नमः ॐ वेदान्तकृते नमः ॐ वेदविदे नमः ॐ क्षराक्षरविवेचा शोकाय नमः ॐ पुरुषोत्तमाय नमः ॐ परमात्मने नमः